ब्रह्म जग्दानम् प्रथमम् पुरस्ता ड्युषे मतः सुवः स बुद्ध्यामुपास्य विष्ठाश्चतश्च यो निमसदश्च विवाह इयम् विद्याराश्चेत्त्वघ्रेत्प्रथामाय जनुषे भुवनेष्ठाः स्मा एतम् सुरतम् हारमह्यम् घर्मम् शेनन्दप्रथमाय धास्यते प्रयोजज्ञे विद्वानस्य बन्धर्विश्वा देवानाञ्जनीमाविवक्ते ब्रह्म ब्रह्म नमुज्जाभारमध्याः नीचैरुच्चेष्वधाभिप्रतस्थौ स हृवश्च प्रे सिञ्ज्यालतः सामहे ्रोदयसी अस्कभायत् महान्मही अस्कभायद्विधातोऽद्याम् सद्पार्थेवम् च रजाः स बुद्ध्याष्टदशाभ्यग्रम् बृहस्पतर्देवतातस्य सम्राट् अर्यच्छुक्रम् ज्योतिषो नोऽनन्तरस्य काव्यो हीनाति महादेवस्य पूर्व्यस्य धाम एष ज्ञे बहुभिः साकमिच्छा पूर्वे अर्धे विषेदे स सन् जोथर्वाणम् विदलम् देवबन्धम् बृहस्पतिम् नमसावादगच्छात् दे। त्वम् विश्वेषाम् जनितायथा बालदायस्य विश्वा उपासादेषञ्यस्य देवाः योस्य शद्विपदा यश्च दुःपदः कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो माहित्यैको राजा जगतो बभूव यस्यच्छायामृतै यस्य मृत्युः कस्मै विधेम यङ्क्रन्दासे अवतश्चष्कभानेभ्यसा नेरोदासीरवा येथा यस्यासौ पन्था रजासोऽभिमानः कस्मै देवाया हमिषा विधेम यस्य चौरुर्वेऽपि शिवे च महेयस्यातौ उर्वा आन्तरिक्षम् यस्यासौ सोऽविदसो महित्वा कस्मै देवाय हमिषा यस्य विश्वे हिमवन्दोमहित्वा सामुद्रे यस्य रसामिदाहुः इमाश्च प्रदिशो यस्य बाहो कस्मै देवाय हमिषा विधेम आपोऽग्रे विश्वामावम् गर्भम् दधा नामृता ऋतज्ञाः यासो देवेश्ववासेत्कस्मै देवाय हमिषा विधेम हिरण्यगर्भः समावर्तताग्रे भूतस्य जातः पदेक आसीत् सदाधारवृषवे मुदर्जाम् तस्मै देवाय हमिषा विधेम आहो वत्सम् जलयन् तेर्गर्भमग्रे समैरयन् कस्योदजायमानस्योल्ब आसीद्धिरण्यः कस्मै देवाय हमिषा विधेम उदितस्तयोऽक्रमन् व्यार्घः पुलोषो मृगाः तिरुद्धियन्ति सिन्धवो हि दग्देवो वनस्पतिर्हिनुम् नमन्तु शत्रावः परेणैतपथा मृगः परा मे नो त्सर्वान्विंशतिन्नखान् या घ्रन्दत्वदाम् वयम् वा समञ्जम्भयामसे आदुष्टय नमथो अहीया तथा न मथो मृकम् यो अपायते यथा यदृशसंविष्टोपायते अथामबध्वंस नेत्विन्द्रो वज्रेणन्तु तम् ओर्णामृगस्य दण्डादेशेर्नामपृष्टयाः निम्रुक्ते गोधा भावदु निमृक्ते गोधाभावयुर्मृगः यत्संयमानमियमोर्यामोयन्नसंयमाह इन्द्रजा सोमचाः सर्वणमसंव्याघ्रजम् भानम् यान्त्वा गन्धर्वाघनत्वरोणाय मृतभ्राजे तान् त्वा वयम् खानमस्योषधिष्यमहर्षाणि पुरुषा उदु सूर्यौदिदम् मामकम् वचाः उरे प्रजापचल्षा सुष्मेण वाचिनाः यथास्पदविरोहतोऽभितप्तमिवा नासि ततश्च सुष्मावत्परमियङ्ग्रह्णोत्तोषाधिः उच्छुष्मोषाधीनाम् सालषभानाम् स्वम् पुंसामिन्न वृश्यामस्मिन्धेः तनो वशिन् अपाम्रसप्रथमचोऽथो वनस्पतेना पुत्र सामस्य भ्राता स्युतार्षमाशिवृष्ण्यम् अद्याग्ने अद्य चावितरद्यते विसरस्वती अद्यास्य ब्रह्मनस्पते धनोरिपाता न यापसाः आहन्तज्यामेवधन्वानि क्रमस्पर्षयि वरोहितनावग्रायदासदा अश्वस्याश्वतलस्याजस्य पेत्तस्य च अथ वृषभस्य एवाचास्तामस्मिन्धे हि तनो वसिन् स्वहस्रसङ्गो वृषाभो यस्यामुद्रा दुदाचारत् ेना सहस्येना वयन्नि जनान् स्वापयामसे भोनिम् वातो देवादिनादेवश्च दिवश्च न स्त्रियश्च सर्वाः स्वापयशुनश्चेन्द्रासखाचरन् ओष्ठेशयास्तल् क्लेशया नादे्या बह्य शेरारेः श्रियोयाः पुण्यगन्धयश्च सर्वाः स्वापयामसे ये जतदजग्रभम् चक्षुष्णानमाजग्रभम् अङ्गान्नजग्रभम् सर्वकारात्रेणामधिशर्वारे यथास्तेजश्च यादियश्च तिष्ठन् विपश्यति तेषाम् सङ्गध्वाक्षे नियथेदम् हर्म्यम् तथा स्वप्तो माता स्वप्तो विजाः स्वप्तुष्वाः स्वप्तो विस्मृतेः त्वम् यस्ये ज्ञातयस्व स्वयमभितो जनाः स्वप्नः स्वप्नाभिकरणेन सर्व निःश्वापयाजनम् ओत्सोर्यमन्या स्वापया विषम् जाग्रताजहनिन्द्रा इवारिष्ठोऽक्षेपः पृथिवेवारिम्ना यावत्सप्तसिन्धावोऽपितश्चिते वाचम् विषस्य दोषाणे तामिदोऽलावादिशम् सुर्णस्त्वागत्मान्विष प्रथममापयत् नाले मतो नारोरोतास्मा भवः पितुः यस्तास्यत्पञ्चाङ्गुरर्वप्रार्चिदति धन्वानः अपस्कम्भस्य शल्यान्निरवोचमहं विषम् शल्याद्विषन्निरवोचम् प्राञ्जादुतपर्णाधेः अपाष्ठात् शृङ्गात्पुल्मलान्निरवोचमहंविषम् रसस्त इषो शल्योऽथो दे अलसंविषम् उता रसस्य वृक्षस्य धनुष्ठे अलसारसम् ये अपि शन्ये अतिहन्याः सर्वे देवध्रायः कृता वर्धविष गिरिः कृतः वर्ध्रायश्चेखनिधानवध्रस्तमश्चोषधे वरध्रश्च पर्वतो गिर्यतो जातमिदम् विषम् वा निदम् वारया देववर्णावत्यामधे तत्रामृतस्यासिक्तम् ते नाहदेवालये विषम् सम्प्राच्यम् विषमाकाशै यदोदेत्यम्धराच्यम् प्रारम्भेन विकल्पदे प्रारम्भम् गत्वा दल्यम् वेव स्वागमोदारथिम् सुधाकि दत्त्वा दुष्टमाचलक्षिवान् समरोपः विदेमदम् पादयामसे मे वयशम् तम्ब च सा स्थापयामसि परिग्रामा विवाचे तम्बा सा स्थापयामसि पृष्ठा वृक्षयेऽवस्थाम्यभ्रेखादेनरोपः अवस्थेस्त्वापर्यक्रेणम् दोर्षेभिराजने वृत प्रक्रेलशक्त्वमाशेऽभ्रेखादेनरोपः नात्रायैव प्रथामायानि कर्माणि च क्रिले वीरान्मात्रमादभन् तद्वा एतत्पुरोदाघे भूतो भूते सुपयादधादिशभूता नामधेपतिर्प्रभो वा तस्यामृत्यस्या रतिराजा सोऽयम् स राचाराज्यमनो मन्यतामिदम् अभिप्रे हिमापावेन उग्रश्चेता स <Side cringe> आतिष्ठमित्रवर्धन तुभ्यम् देवाधिब्रवन् आतिष्ठन्तम् परिविश्वेऽघोषम् धियम् वसानश्चरति स्वरोजिः महत्तप्रश्नासोरस्य नाम विश्वरो वा अमृगानितस्थौ व्याघ्राधि वैयाघ्रे विक्रमस्वदिशो महेः विषस्त्वा सर्वा वापो दिव्याः पयस्वतेः यापो दिव्यापयसामतम् चन्तरिक्ष उत वा पृथिव्याम् तासाम् त्वा सर्वासामपामघिषिञ्जामिवर्चा सा अभित्त्वा वर्चा सा यथा सामित्रवर्धनस्तथा पा सविदाकारत् येना व्याघ्रम्बरसर्वजाना सिंहम् हिम्बन्तु महते सौभागाय समुद्रन्न सुभमस्तस्थिवांसम् मर्मृत्यन्ते द्वेतिनमप्स्वा आन्तः ए हे देवम्त्राय मानम् पर्वतस्यास्यख्यम् विश्वेऽभिर्जेवै दत्तम्बरिभिर्जेव नायकम् परिपाणम् पुरोषाणाम् परिपाणम् गवामसे अश्वानामर्वाताम् परिपाणायदस्थिषे उदासे परिपाणैरादिकम्भनमाञ्जन उदामृतस्य त्वम् वेत्थाथोऽजे बभोजानमथो हरितभेषजम् यस्याञ्जन प्रसर्तस्यङ्गामङ्गम् परस्परोः तथा यक्ष्मण्ग्रो मध्यमसे देव नैनम् प्राप्नोपकृत्यानाभिशोचनम् नैनम् विष्कन्धमश्मृतेयस्त्वाभिभक्त्याञ्जन असन्म्राद्दुष्वप्न्याद्दुष्कृताक्षमालादुता दुर्हार्दश्चक्षोषाघोरा तस्मान्नः पाह्याञ्जन इदम् विद्वानाञ्जनसत्यम् वक्ष्यामिनावेतम् स्वनयमश्वङ्गामहमात्मानम् तव पूरुष प्रयो दासाञ्जानस्य लग्मा बलासा दहेः परिषष्ठपर्वदानान्द्रिगुन्नामादेता गलाञ्जानम् द्रेगमुदम् जातम् हिमवतस्परे जातोम् च सर्वान्नम्भयन् सर्वाश्च यातु धान्याः निवासित्रैककृतै यदीयामुनमुच्यसे उभेदे भद्रेणाम् नेताभ्याम् नः पाह्याम् जन वाताज्जातो अन्तरिक्षाद्विद्यतोऽद्योदेशस्तरे स योग्रतो जनानाम् समुद्रादधे ज्यशे शङ्खेन हत्वा रक्षाम् शत्रुणो विशामहे शङ्खेनामेवममादिम् शङ्खेनो द सदान्वाह शङ्खो नो विश्वभेर स नाहिरण्यजाः शङ्खायश्वतरणो मणिः समुद्राज्जातो मणिर्पृत्राज्जातो देवासरः स अस्मान् सर्वतः पातु हेत्यादेवासुरेभ्याः हिरण्यानामेको धितोमा त्वमधेजे रचे त्वमादिदर्शत एषु सौरोचनस्त्वम् प्रणायोम् जिगारिषत् देवानामस्थ्यकृशानम् बभो वददात्मन्यर्चलत्यप् स्वाधान्यायो शैवर्चलाय देधायत्वाय शतशारदायका शरस्त्वाभिरक्षतु अनद्वान्दाधारपृथिवे मुद्याम अनद्भान्ताधारोर्वा प्रदिशश्च दुर्वेण्यम्भुवनमाविवेश अनद्वानिन्द्रस्य वसद्भ्या वियष्टे त्रयान् शत्रो मीमेते अध्यानः भूतम् भविष्यद्भुवनादुहा नः सर्वा देवानाञ्जलनिव्रतानि इन्द्रो जातो मानुष्येष्वन्तर्घर्मस्तप्तश्चार दिशोऽशो सुप्रजाः सन् स्वगोतादेन सर्षज्जोदा श्रेयादा नदो विजानन् अनग्मान् दोहे सुकृतस्य लोकायैनम् जाये त्रिपवामानः पुरस्तात् पर्जन्यो धारामरुतबोधोऽस्य यज्ञपयो लक्षेणादोःस्य यस्य नेशे यज्ञपाचर्णयज्ञो नास्य दातेशेन प्रातिगृहीता यो विश्वजिद्विश्वाभृद्विश्वकार्मा धर्मम् नो अब्रूतयतामश्चात् येन देवासारानुरोहत्वा शरेण मृतस्य नाभिम् तेन येष्मद्वृतस्य लोकम् धर्मस्य व्रतेन तप्रासायशस्य वाह इन्द्ररूपेणाग्निर्वहेण प्रजापति परमेष्ठिविराट् विश्वानरे अक्रमद वेश्वानरे अक्रमद नडुह्यक्रमत सोऽहयत सोऽधारयत मध्यमेतद नडुहायत्रैषव आहीतः एतावादस्य प्राचीनैयावान्प्रत्यान् समाहेतः यो वेदानडोः दोहान् सप्तानोपदस्मतः पदाम् च लोकम् चाप्नोति तथा सप्तविषयो विदुः पद्भ्यस्येति मा पत्रामन्दिराम् जङ्घाभिरुत्खिरन् स्वमेनानद्वान् केलालम् केनादश्चाभिगच्छतः द्वादश वा एतादात्रेर्वृत्त्याहुः प्रजापतेः तत्रो ब्रह्म यो वेदद्वा नदुहो वृदम् दुहे सायम् दुहे प्रातर्दुहे मध्यन्ते नम्बरि गोहाय अस्य संयन्दितान् वित्राणो हृदस्वतः रोहण्यशिरोहण्यस्य छिन्नस्य रोहाणि रोहयेदमारन्धते यत्ते रष्टै भद्रया पुनः सन्दधत्परोषापरोह सन्दे मज्जामज्ञा भवतु असमोदे परोषापरोह सन्दे मां सस्यविः स्वस्थम् समस्थ्यपि रोहतु मज्जामज्ञा सन्धेयताम् चर्मा नाचर्मारोहतु असक्ते अस्थे रोहतु मांसम् मांसेनहतु रो लोमलो न्यासङ्गल्पया त्वजासङ्गल्पया त्वचम् असृष्टे अस्थेरोहदच्छिन्नम् सन्धे क्योषधे स्वोत्तिष्ठप्रेः प्रत्र वरथस्व चक्रस्वोपविः सुनाभिः प्रतिष्ठोऽध्वः यदिकर्थम् प्रतित्वा सम् जश्रयति वा श्वा प्रहृदो विभोरथस्येवाङ्गानिषन्दासत्परोषापुरोः उदरे वा, दे वा अवाहितम् देवा उन्नाय सा पुनः उताकश्चक्षुषम् देवा देवा जीवय सा पुनः वाविमो वातो वाधा दे अन्यावादुव्या आन्यो आवात बाहि भेषजम् विवात बाहि याः तम् हि विश्वभेषवदेवानाम् दोतयीयासे प्रायन्दामिमम् देवास्त्रायन्दाम् मरुताङ्गनाः रायन्दाम् विश्वा भूतानि यथायमागपास आत्मागमम् सन्तादिभिरथोऽष्टादिभिः दक्षम् त उग्रमाभारशम्बरा यक्ष्मम् सुवामिते अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे शदोऽयम् शिवाभेमर्शनः हस्ताभ्याम् दशाखाभ्याम् जह्वा वाजः पूरोगवी अनामयि त्वभ्याम् हस्ताभ्याम् ताभ्याम् त्वाभिमृशामजे अजोक्षा आग्ने रजाननिता रमग्रेः येन देवा देवतामग्रायन्दरोहाऽध्यासः प्रमध्वमग्निनानाकमुख्यान् नष्टेषु बिभ्रातः दिवस्पृष्टाम् सर्गत्वा मिश्रा देवेभीराध्वम् पृष्ठात्र शिव्याहमन्तरिक्षमारोहमन्तरिक्षाद्दिवमारोहम् दिवो नाकस्य पृष्ठात् स्वार्जोतेरगामहम् स्वार्यन्तो नादेह क्षन्ताद्याम् प्रोहम् तिरोदयसी यज्ञै्य विश्वतोधारम् सुविद्वान्सौ विरे प्रेः प्रसमो देवता ूषानाम् यक्षमाणा भृगोभिर्सजोषा स्मर्यन्तु यामाना स्वस्ते अशमानज्ञे पया सा कृतेन दिव्यम् तु वर्णम् वायसम् गृहन्तम् तेन गेष्मकृतस्य लोकम् स्वरारोहन्तोऽभिनागामुत्तमम् ितोदनम् राज्ञाम् दिशशिराजस्य देहि दक्षेणायाम् दिशि दक्षेणम् देहिः पार्श्वम् प्रदेच्याम् दिशि भसदामस्य देहश्चिश्युत्तारम् धेः याम् दिश्या आजस्या नो गन्धेः दिशि ध्रुवायान्धेः पाजस्य मन्तरिक्षे मध्यतो मध्यामस्य श्रुतमजम् श्रुतया प्रोन्नो हि त्वजा सर्ववैरङ्गैः सम्भेदम् निश्वरोऽवम् सवत्तिष्ठेतो अभिनागामुत्तमम् पद्भ्यश्चतुर्भ्यः प्रदे समुदातन्तु प्रदिशो न भस्वथे समभ्याणिपाता तोनभस्ततो महर्षभश्च न भस्वतो भा शा पृथिवीम् तर्पयन्तु समेक्षयन्तु न विशा सुदा न गोपाम् रसा हरेक्षय स्वराय दो लभाः सपाम् वेगाः स पृथग द्वीजन्ताम् वर्षस्य सर्गामहयन्तु भौमिम् पृथग् जायन्ताम् ले रथा विश्वरोपा रस्तोता गायन्तु मारुदाः पर्जन्यघोषिणः पृथक् सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवे मनो <ुदे> मग्रतस्तेषो हर्को न भवत्पादयाथ महर्षभश्च लता को नभःस्वतो वा शापृथिवीम् तर्पयन्तो अभिक्रन्दस्तनयार्दयो दधिम् भूमिम् पर्यन्यपयशासमन्धे त्वया सृष्टम् बाहुलमेजो वरिषमाशाजगोरेस्तम् संदान वहुत्सा जगराहुत मरद्भ्यः प्रचोद मेघावर्षन्तु पृषिवे मनो आशामाशाम् विद्यादताम् बाधा वान्तु दिशो देशः मरद्भ्यः प्रचोद मेघाः सय्यम् दुपृशिवे मनो आपो विद्युदद्भ्यम् वर्षम् सम्भवन्तु सुता न वहुत्सा वरद्भ्यः प्रत्योता मेघाः प्रावन्धो मनो अपामग्न्यस्तनोभिः संविधानो यवोषाधेनामधिपा बभोव सनो वर्षम् वामृताम् जातवेदाः प्राणम् व्रजाभ्यो अमृतम् दिवस्परि व्रजापादः स लीलादासमुद्रादापा प्रत्यायथाम् भ्रष्टाश्वश्चर कार्पायेते रस्तनयत्मनेः अपोनेशङ्कन्नसोरत्पिता नश्वसम् गर्गारा अपाभ्यरुणा वनेजेरपसृज वदन्त प्रश्ने बाहवो भण्डो गायिलिना नो संवत्सरम् शा च जाना ब्राह्मणा पादम् पर्जन्यजन्विताम् प्रमण्डोकावादिशोः उपप्रभातमण्डोकि वर्षमापादचातुरि मध्ये विशुष्य चतुरः पदः खण् मध्ये चतुरि वर्षम् मनर्ध्वो विदरो मरुताम् मन इच्छत महान्तङ्वाचमुदताभिजन् श्रीनम् भावतु वा तु वाताः धर्मता यज्ञम् राहुधा विदृष्टा नन्दिनीरोषाशयो भवन्तो गृहण्य रामधिष्ठातान्तिगादेव पश्यति यस्तायन्मन्य चलन् सर्वम् देवायितम् विदुः यस्यश्च देचरदेयश्चान्तयो निलायञ्चरद्यः प्रतङ्गम् बहु सन्निषद्ययन्मन्दयेः दैराजातद्वेः सभरोडस्तृतीयाः उदेयम्भो निर्वरोडश्च राज्ञरासौ जौर्बृहते दूरे अन्तारोधा मुद्रोवरोडस्य मुक्षे उरास्मिन्नल्पादके निलीनः र्पात् परस्तान्न समुच्चादेवरोणस्य राज्ञाः विवस्मय प्रचारम् देवतस्य सहस्राक्षादेव पश्यन्ति भूमिम् सर्वम् तद्राजावरोणो विचष्टे यदन्तरारोदासे यत्परस्तात् सङ्ख्यादाश्च निमिषो जनामक्षादेवष्वग्ने एते पाशा वरुणसप्तसप्त त्रेधा तिष्ठन्ति विशेदाशन्तः शिनन्तु सर्वे अवरतम् वदन्त यः सत्यवाद्यदितम् सृजन्तो सतेरपाशैरभिधेः वरुणैरम् माते मोर्चनु तवामृक्षः आस्ताञ्जाल्म उदरम् शंसयित्वा कोशायिव बन्धः पारिकृत्यमानः यः सामान्यवरोणयो्याम्यः सन्देश्योवरोणो यो वेदेश्याः यो देवो वरोणो तानो ते सर्वाननुसन्देशामि ईशानाम् ताभेषजानामुदयेषारभामहे चक्रसहस्रवेल्यम् सर्वस्मावोषधेत्त्वा सत्यजितम् शपथयावानीम् सह मानाम् पुनः सर्वाम् सर्वाः समश्चोषधेरितो न पादयादिति या शशापाशमानेन याघम् मोरामादधे गारसस्य या हरनाय जातमा रेभेतोकमत्तु सा गाञ्चे चक्रुरामे पात्रे याञ्चक्रुर्णेलोहिते रामे माम् च तृत्या याञ्चक्रुस्तया कृत्याकृताजिः दलोष्वाप्नम् दौर्जे विद्यम् दक्ष अभ्रामनाय्याः दुर्णाम्नेः सर्वा दुर्वाचस्तास्पन्नाशयामहे सुधामालम् दृष्णामारमघोदामनपत्यथा अपामाग्रत्वया वयम् सर्वम् ददता वज्महे तृष्णामारम् शोधामालमथोक्षपराजयन् अपामार्गत्वया वयम् सर्वम् तदपा मृज्महे अपामाग्रवौषाधीनाम् सर्वासा मे कविद्वशी येन च मृज्मास्थे तम सत्त्वमा गतश्च समङ्गौतिः सो येनाम् न रात्रेः समावादी कृणोमे सत्यमोदय वसा सन् योज त्याम् कृत्वा रादवेदुषो गृहम् वत्सौ धारुरेव मातरम् तम् प्रत्यगुपापपद्यता अपाकृत्वापात्मानयस्य नान्यञ्जिघा चे अस्मानस्तस्याम् दग्धायाम् बहुलार्भट्क्या सहस्रधापन्निषेधान्यज्ञेवाञ्छ्याययात्म न चकृषे कृत्याम् प्रियाम् प्रिया वा ते हर अनयाहमोषध्यासनुर्वा कृत्याः दोदुषम् याम् क्षेत्रे कर्तुर्याम् वोषियाम् वाते पुरुषेषु यत् सकारण सशाकर्तुम् सश्रेवादमङ्गुलिम् सकार भद्रमत्मभ्यामात्मने सपानन्तु नः अपामार्गोपमार्ग क्षेत्रियम् शत्रंश्च यः अपाह यातुेन बर्वा अलाय्याः अपम्रज्या यादुधा नानुपसर्वा अलाय्याः अपाह मार्गद्वयाः वयम् सर्वम् उपाकृत्याकृतः प्रजान्नवारश्चिन्निवाभिषेकम् ब्राह्मणेन पर्यप्तासि कण्नर्षदेन ना सेने वैषित्विषे मदेन तत्र भयमस्ति यत्र प्राप्नो स्योषधे अग्रामे सोषधेनाम् ज्योतिषेवाभिदेपयन् उपरत्राता शिपाकस्यासोऽशे रक्षसाः यथा देवाशो राम्सयाग्रे निरकुर्व ततस्त्वमध्योऽषधे वा मार्गो अजायथाः विभिन्नदेशदशाखा विभिन्नम् नामा दे पिता प्रत्यग्विभिन्धि त्वम् दैव अस्माभिषत् असद्भोम्याः समाभवत्तद्यामेति तर्ते ततोऽमिधोपायः प्रत्यक्कर्तानामुच्छतु प्रत्यङ्घिदम् न भोवेध प्रतेजेन फलस्त्वम् सर्वान्मच्छमथापरीयो वयवधम् शतेन मा परी पाहि सहस्रेणाभिलक्षमा इन्द्रस्त्वेरुधाम् वदवग्रहोऽज्ञमादाधते आपश्यति प्रदेपश्यति आप परापश्यति पश्यति विवन्तरिक्षमार्भूमिम् सर्वम् तद्दे विपश्यति तिस्रो दिवस्तिस्रकृ शिवेष्ट क्षेमा प्रशिष पृथगे ययाहम् सर्वा भूतानि पश्यानि देव्योषधे दिव्यस्या सुवर्णस्य तस्य हासि कनी साधो निवारो लोहितवाक्याम् शान्तावधूदेव धामेन सहस्राक्षो देवो दक्षे मेहस्ता दधते तयाहम् सर्वम् पश्यामि यश्च श्रोत्रहुतार्याः आविष्कारश्वरूपाणिमात्मानमपागोहथाः अथो सहस्रदक्षो त्रम् प्रदेपश्च किमेदिनाः दर्शय मायातुधानाम् दर्शय यातु धान्याः विशादान् सर्वान् दर्शय दित्वारभवोषधे कर्श्यपश्य रक्षोरसिशून्याश्च यतो रक्ष्याः लेध्रसौर्यमिव सर्पम् तम् मावेशादम् तिरस्कारः उतग्रथम् परिपाणा जातुधानम् इमेदिनम् तेनाहम् सर्वम् पश्या शोद्रमुतार्यम् यो अन्तरिक्ष न पतादिति वैयश्चादिसर्पादि भोमी यो मन्येनासन्तम् वेषाचम् प्रदर्शय आगावो अग्मन्मृतभद्रवक्षम्सेदम् गोष्ठरणयम् कस्मे ः पुनरोपाहस्य निन्द्राय बोर्वे रुषसौ दुहानाः इन्द्रो यज्ञाने गृणते च शिक्षा तौ पे ददाति भूयो भूयो रयमिदस्य वर्धयन्न भिन्ने खिल्ले निदधाति देवयम् नता नाशन्ति न दभादितस्करो सा देवा जयाभिर्य चेतदादिदोगित्ताभिः स च ते गोपादिः सहा नतार्वा रेणुका गाडोऽस्तुदेन संस्कृतत्रमुपायन्ति ता अभि गुरुगायमभायन्दस्य ता अनुगावो मत्यस्य विचारम् देयज्वानः गावो भगो गाव इन्द्रो मयित्वा गावः सोमस्य भक्षः हिमाया गावत्सजा ना स इन्द्रा यच्छा मे हृदा मनसा जिदिन्द्रम् योऽयङ्गावो मे जथा कृषन् जेदश्चैरञ्जित्कृणुधा सुप्रत्येकम् भद्रम् ग्रहम् उच्चते बृहद्वावयामुच्यते सभासो प्रजावादे सोऽयवासे ऋषन्तेः शुद्धा अपस्वप्रपाणे पिबन्तिः मा वस्थेनगजम् सफलीवरुद्रस्य हेतवृक्तोत्रियम् इमम् विषामेकवृषम् क्रीणत्वम् निरमित्रा नस्य सर्वाम् स्थान्द्रम्भया स्म अहमुक्तारेषु हेमम् भ जग्रामे मित्रो अस्य रस्नक्षत्राणा वयमस्तु राजेन्द्रशत्रुम् रन्धय रमस्मै अयमस्थोधनापर्धनामयम् विशाम् विष्पतेरस्तु राजा अस्मिन्निन्द्रमहिमत्याम् सुधेह्यवर्चसङ्क्रणहिशत्रोमस्य अस्मैत्या वा वृष मे भोरे वा अयम् राजा प्रिय इन्द्रस्य भूयात्मियोगवामोषाधेनाम् पशूराम् दिनज्ञे तमुत्तरामम् तमिन्ध्येन जयन् दिनपराजयन्ते यस्वाकलदेकप्रषञ्जनानामुतराज्ञामुत्तम् माना उत्तरस्त्वमधारे च सपत्नायैके च राजम्बे शत्रवस्ते एकवृषेन्द्रसखाजिगेवाङ्क्षत्रो यता माभारा भोजानानि सिंहप्रादेकोऽपि चाद्धि सर्वाम् व्याघ्रप्रातेको वा बाधस्वशत्रो एकवृषेन्द्रसखाजिगेवाङ्क्षत्रो यता माखी भोजानानि अज्ञेर्मन्वय प्रथमस्य प्रचेतस पाञ्चाजन्यस्य बहुधा यिन्धते विशाविशप्रविशिवाम् धामि महेसनो पुञ्चत्वम् हासः यथा हव्यम् महासि जातवेदो यथा यज्ञम् कल्पयासि प्रधानन् एवा देवेभ्यस्वमादिन्नावहसनोः मुञ्चत्वम् हासः यामन्नमन्नुपायुक्तम् वहिष्ठम् कर्मन् कर्मन्नाभागम् अर्जिने डैलक्षोहणै यज्ञपृथम् कृताहो संसनाः मुञ्जत्वम् हासः सुजातम् जातवेदसमर्घिम्भयेश्वानरम् विभवम् हव्यवाहम् हवामहे सुञ्जत्वम् हासः यो बलमद्योदयन्विचारेण सूराणामयो वम् तयाः येनाग्निना न्द्रोः जिगायसोचत्वम् हासः येन देवामृतमन्वमिन् धन्येणोषधेर्मधोमकेलकण् येन देवा स्वारभरन्स नो मुञ्च त्वम् हासः यस्येन यद्दिरोच जयज्जातम् जनितव्यम् च केवलम् ओम् यज्ञाजितोजाहमे ना मिश नामुञ्जत्वम् भासः इन्द्रस्य मन्महे चश्वरिरस्य मन्महे वृत्तघ्नस्त्वमानुपामे मा गोः यो दास्वकृतो हवमे जशनामुञ्जत्वम्भासः य उग्रेणमुग्रबाहुर्येर्योदा नवानाम् बला मारुरोज येन विदाः सिन्धभोजावः सलामुञ्जत्वम् भागः यश्चर्षणि वेषभः स्वर्विद्यस्मै ग्रावाण प्रवदन्ति गम्णम् यस्याः स्वरः सप्तहो गावः सलामुञ्जत्वम् भागः यस्या वशास वर्षभागुक्षणा यस्मै मीयन्तेश्वरवस्वर्विदे यस्मै शुक्लप्पवदे ब्रह्मगुम्भिदर्शनो मुञ्जत्वम् भासः यस्य तुष्ट्यम् कोविनः कामयम् देयम् हरम् दैवो मन्दम् गविष्टौ यस्मिन्नर्कस्य श्रिये भासः यः प्रथमत्कर्मगत्या यदज्ञेयस्य वीर्यम् प्रथमस्यानुबुद्धम् येनोद्यदो वज्राभ्यायता हिंसनामुञ्जत्वम् हासः यः सङ्ग्रामान्नयदिसंधयवशेयः पृष्ठानि संसृज दिद्वयाने सौमेन्द्रम् नाशितो यो हविर्सोमुञ्जत्वम् हासः वायोश्च विदुर्विदथा निन्महेयात्मन्नद्विषधौ यौ च रक्ष्यासः नो विश्वस्य परि भो ब भूपदस्थौ न मुञ्चतमम् ययो सङ्ख्या काबले मा पार्थे वा नियाभ्याङ्ग्रजोऽमन्तरिक्ष ययोप्रायन्नान्वा न च कश्चन तौ न मुञ्चतमम् तवो व्रज निवेशम् ते जना सत्व युदे ते युवम् वा योगविता च भुवानानि लक्षतस्थौ न मुञ्चदा मम् हासः अपेतो वा योगविता च दुष्कृतमपलक्षाम् शि समेदान्त सूर्जया रथः सम्बले धतौ न मुञ्चदा मम् हासः नयिन्मे पोषम् स विदोत वायुस्तनो दक्षमासोपदाम् नयक्ष्मता जिह्महा यह धत्तम् दौरामुञ्जदमम् हासः रसोपतिम् च सौमी देवम् स विदार वायुन्तौ न मुञ्चदा मह्मासः मन्वे भाञ्जा वा पृथिवे सुभाजसौ सचेतसौये अप्रासयथा ममे वसो नाम् तेनो मुञ्चत मम हासः वसो नाम् प्रवृद्धे देवी सुभगे मुरुचि जावा पृथिवे भवतम् मे स्योने तेनोः मुञ्जगामम् मासः भेरे गविषम् नमस्ये या वापृथिवे भवतम् मे ये अवृतम् विभ्रतो ये हमींषि ये श्रोच्च या वापृथिवे भवतम् मे स्योनेतेनो मुञ्जद मम् मासः स्त्रिया पृथो य वनस्पतेऽन्यो भवाम् विश्वाभुवनाढ्यन्तः यावापृथिवे भवतम् मे स्योनेतेनोमुञ्जदमम् सोये घृतलयाभ्याः मृदेन किञ्च न शक्नुवन्ति ्यावापृथमे भवतम्मेऽस्यो नेतेनामुञ्चत मम् मासः तन्मेतमाभिजो च धियेन येन वा कृतम् पौरोष यान्न दैवात् सोमि ज्या वापृथेन आशितो जोहमेतेनामुञ्चता मम् मासः मरुताम् मन्मे अधी मे ब्रवन्तु प्रेमम् अवन्तु आशो नैव धूयमानः प्रभूतये तेनो मञ्जन्तुम् हासः उत्सामक्षेतम्व्यतम् दिये सदाया सिञ्जन्तिर समोषाधीषु पुरोदधे वरतः पृश्ने मातृस्तेनो मुञ्जन्तुम् हासः पयोधेनो नाम्र समोषाधेनाम् जवमर्वाधा गवयोजीन् राथ षड्माभावमरुतो नश्योदास्तेनो आमम् जन्तुम् हासः अपः मुद्राश्रिवमुद्दाहन्ति जिवत्पुरथिवीमभि ये सुजन्ति ये अभेशानाभृतश्चरम् तेनोमम् जन्तुम् हासः ये कीलालेन दर्पयन्ति ये घृतेन ये पावयो मे ददासम् ये अध्येशानामरुतो वर्षयन्ति मुञ्जन्तुम् हासः यदि मारुतमारोदेन यदि देवा देव्येन सुकार योषमे श्रद्धेव समस्तस्य निष्कृते स्तेनोमुञ्जन्तुम् हासः विग्नमनेकम् विदितम् सहस्तन्मारोतम् श्रद्धः प्रदानासोग्रम् सौरे मरुदो रासिदोजो हरिमिते नोमुञ्च बुम्भासः भवा शर्वो वन्दे वान्तस्य वित्तन्ययोर्वामिदम् प्रतिशयद्विरोच यावस्य यौ चतुष्पधस्थौ नोमुञ्चदामुम्भासः यजोऽभ्यर्थ उदयद्दूरे चित्यौ वेदिता वे शुभतावसिष्ठौ रावस्येषा च द्विपदौ यौ चतुष्पदस्थौ न मुञ्चदम् मादः सहस्राक्षौरुत्रहणाहुवेहम् दोरेगौ यो देस्तु वर्णेऽहम् युगौ गावस्येषा च द्विपदौ यौ चतुष्पदस्थौ न मुञ्चदावम् मादः यावशेषा च द्विपदो यौ चतुष्पदस्थौ नो मुञ्चदावह्सः देवाधान्यपवद्यदेकश्चरान्तर्देवेषु तमानोषेषु यावस्येषा च त्रिपदो यौ चतुष्पदस्थौ नो मुञ्च बह्कण्मो लद्याः दुधा नो निस्मिन् भक्ताम् वज्रमुग्रौ वस्येषा चेद्विपदो यौ चतुष्पदस्थौ ना मुञ्चदामम् मासः अधेनाव्रोदम् मृदानासो ग्रौ सम्वज्रेण सुगदैयकी मेजि स्तोमी भव शर्वो नाधिनोजो हैमितौ न ना मुञ्चदामम् मासः वन्दे वान्नित्रावरुणा वृता वृधौ स चेतसौ चवानौ यौ हृदय सत्या वा नमवाधो भरेषु तौ नो मुञ्जदा मम् हासः सचेतसौ क्रुबाढो योजयथे प्रसत्या वा नमवाधो भरेषु यो भरे गच्छसो निचक्षरसो बभ्रुणा सुबन्धो नाञ्जदा मम् हासः याव्येन समवाधो यावगस्थितिम् मित्रावरुणाजमदग्निमत्रिम् यौ कश्च ममवाथो यौ वसिष्ठन्तौ न मुञ्जदामम् मासः नौ श्यावाश्वमवाधो मध्यश्वम् मित्रा वरुणा पुरुमेढमत्रिम् गौवे मदमवाधः सप्तमध्यन्तौ न मुञ्जदामम् मासः यौ भरद्वाजमवाधो यौ गनिष्ठेरम् विश्वामित्रम् यौ कक्षेवम् तमवाध प्रोदगन्धन्तो नामञ्जलामम् मासः यौ मेधातिशिववाधो यौ तृशोकर्मित्राः वरुणावुशनाम् काव्यञ यौ तौ मे निरोणो नाचितोजोऽह मे विधौ नो मुञ्जरासः अहम् रुत्रेभिर्वसोभिश्च राम्यहमादित्ये वृतविश्वरे वैः अहम् निरावरोणोभाभिर्म्यहमिन्दाग्नि अहमश्विनोभा अहम् राष्ट्रे सङ्गमादेवसो नाञ्चिकेदृषे प्रथमा यज्ञानाम् देवादः पुरुत्रा भूरिष्ठात्राम् भोव्याभेषयन्तः अहमेव स्वयमिदम् वदामि दुष्टम् देवानामुतमानोषाणाम् यम् कामयेतम् तामुग्रङ्ग्रेणोभिदम् ब्रह्माणन्दम् सो मेधा मया सोऽमत्ययो विपश्य जयः प्राणजययेन् सृढोत्युक्तम् अनन्तभोमान्तमुपक्षियन्ति श्रुधिः श्रोतः श्रद्धेयम् ते वदामि अहम् भद्राय धनुराता नोमि ब्रह्म द्विशेषर वेहन्तबाहो अहम् जनाय समदम् कृणोम्यहम् द्यावाः अहम् धो मामाहनसम् मिभर्म्यहन्तश्चार मुदभूषणम् अहम् ददामि द्रविणाह विष्णादय सुप्राव्या आमानाय संवादे अहम् सोमे पितरामस्य मोर्धन्मयो निलप्स्वा आन्तः सा मुद्रे तथा विदष्ठ भुवनानि विश्वासामोऽध्यामक्ष्मणोऽपस्पृशामि अहमेव वादा युवप्रभान्यालभामानाभुवादानि विश्वा परो दिवा परयेना येना पृथिव्येदा वा देवम् बभूव मया मन्यो सरथा मारुजन्तो हर्षमाणा हृषिदासो मरुत्पन्न जिघ्नेश वा योधा संसिताः नागुपप्रयम् अग्निदेवमन्या त् विजितः स हस्वसेनानीर्नः स हृहृदये हत्वायशत्रोन्विभाजः स्ववेदवो जाभिमानो वि मृधा रुदस्व सहत्वमन्योऽभिमाजिमस्मे रुजन् मृणन् प्र मृणन्त्रे हि शत्रून् एको बहो नामाधिमन्ययेणि विषम्विषम् युद्धाय संशेषाधि अग्रस्तरत्वयाः युजाभयम् जुमन् अम्भोषम् विधयाय कृमसि विजयशलिन्द्रजिबानवब्रभो अस्माकम् मन्यो अधिका भावेह प्रियन्ते नाम सहृ गृणेमसि मित्त्वा तमुत्सयता बभूत् भूज्ञासहजापत्रसायकसः बिभर्षिसः भूतमुत्तरम् रक्त्वा नो मन्यो सह मेद्येधिमहनस्य पुरोहोत संसृजे संस्रष्टम् धनमुभयम् तमाग्तवष्पभ्यम् धत्ताम् वरोणश्च मन्यो यस्ते मन्यो वेदद्वज्यसायकसहवोधः पुष्य विविश्वानुषक सा ह्यामदा समार्यन्त्वया युजा वयम् सहस्रते न सहसा सहस्वता मन्युरिन्द्रोः मन्युरेव स देवो मन्यरोहो तापरो नो जातवेदाः मन्यर्विषायेण ते मानो सेव्याः पाहिनो मन्योतपसा अभेहिमन्या तव सवे ये यान्तबाला विजा विजाहि शत्रून् अमित्रहा वृत्रहा दस्युहा च विश्वावसोऽन्याभारा त्वन्नाः त्वम् हिमन्या विभोद्योगास्वयम्भोर्भामोभिमातिषाः विश्वजर्षणैः सहोरिः सहे एयानस्मास्वो राघ सन्नपरे द्वास्मितमप्रदातविषश्च प्रचयतः रन्वा मन्या क्रतुर्जे हेणाहम् स्वातलोर्बालावे हि अयम् दे अस्युपालये शर्वामृते जेन स हृरविश्वदावन् मन्या वजन्नभिनावृत्स्वहनावदस्योमृतमोऽध्यापेः अभिप्रैः दक्षिणादो भवानोधाः वृत्राणि जङ्घनामभूरि जहोमेतय धरुणम् मध्वो अग्रमुभावोपाम् शुक्लमाले वाव अपानशोशोचदघमग्नेः सुशुभ्यालयम् अपानशोशोचदघम् सुक्ष्यत्रयासो गात्रया वा सोयाचा यजामहे अपानशोशोचदघम् वजद्भन्द येषाम् प्रास्माकाहारश्च सूरयाः अपानश्योशोजदघम् विजयत्रे ए अग्ने सूरयो जाये महि प्रदे वयम् अपानश्योशोजदघम् प्रजयरग्ने सहस्वतो विश्वतो यन्ते भान्वाः अपानशोशोजदघम् त्वम् हि विश्वतोमुखविश्वदपरिभूरसि अपनः शोशोचदघम् विशो न विश्वतो मुखादिनावेव पारय अपनः शोचोचदघम् स न सिन्धुमिव नावादिवर्षा स्वस्तये अपनः शोशोचदघम् ब्रह्मास्य शेषम् बृहदस्य पृष्ठम् वाम छन्दांसि वक्षो मुखमस्य सत्यम् विष्ठारे जातश्च वसोऽधियज्ञः अनस्था भूताः पवानेन शुद्धा श्रुजा यः श्रुतिमपेयन्ति लोकम् एषाम् षष्ठम् प्रदाहति जातवेदा स्वर्गे लोके महोत्रेण मेषा विष्ठारिणा मोदनये भजम् दिनैनानवर्तिः सजते आस्तेयमौपायाति देवान्सङ्गन्धर्वैर्मादते सौम्येभिः विष्ठारिणमोदनय्येव तम् दिनेनान्यमः परेमुष्णातिरेताः रशेह भो त्वार सजाना यीयते पक्ष्येह भोत्वादिवः समेति एष यज्ञानाम् वितातो वहिष्ठा विष्ठारिणम् मत्वादिवमाविवेश आण्डीकम् कुमोदम् सन्दानधिभिषम् सा लोकम् सभा गोमुलायी एतास्वाधारामुपायन्तु सर्वाः स्वर्गे लोके मधो मत्तिन् वा माना तिष्ठन्तु पुष्करणे समन्वा वृतक्रादा मधो गोलाः सुरोदगाक्षेरेण पूर्णामोदकेन रध्ना एता स्वाधा स्वर्गे लोके मधो मत्पिन्वयमाना उपर्त्वा तिष्ठन्तु पुष्करणे समन्ताः चतुरः कुम्भांश्च दुर्धददामिच्छेदे पूर्णा मोधकेन दध्ना एतास्वाधारा उपायन्तु सर्वाः स्वर्गे लोके मधो मत्पिन्वमाना उपर्त्वा तिष्ठन्तु पुष्करणे समन्ताः निदाधय ब्राह्मणेषु विस्तारिणम् द्वासहितम् स्वर्गम् समेमाक्षे दस्वधया बिन्वमानो विश्वरो बाधे नो कामनुधा मेऽस्तु यमोदनम् प्रातमजादस्य प्रजाप दुष्टवसा ब्रह्मणे यो लोकानाम् विध ृत्यम् येनादारम्भोदकृतो मृत्यमन्वरिन्दन्तप साश्रमेण यम् पपा च ब्रह्मणे ब्रह्म पूर्वम् तेनो दनेनादितराणि यो दाधार पृथिवीम् विश्वभोज्यो अन्तरिक्षमासेन ृत्यम् यस्मान्माजागर्मेतास्त्रिंशदारा संवत्सरो यस्मान्नोद्वादशः होरात्रायम्बारियन्तो नापुस्थेणो धनेनादेतराणि मृत्यम् यः प्राणतः प्राणदवान् बभो वयस्मे लोकाघृतवन्तरन्ति योगिष्पदे प्रतिशायजर्वास्थेनो दलेनादेतनानि मृत्युम् यस्मात्पक्पादमृतम् सम्बभो वयोगायत्याहेपदर्बभूव यस्मिन्वेदानि हेदाविश्वलोपास्थेनोः दलेनादेतनानि मृत्युम् अपाबाधे द्विषन्तम् देवपेयम् समनाये मे पते ब्रह्मोदनम् विश्वलितम् वजामि शृण्वन्तो नेश्व नस्य देवाः तान् सत्यौजाप्रदाह्य वेश्वानरो वृषाः यो नो दुरस्या दिप्साच्चातो यो नो राप्सत दिप्सत दिप्सदो यश्च दिप्सदि घरे मृगयन्ते प्रतिभ्रोषे मा वास्ये प्रव्या अन्यान् व्यक्षादः सर्वां स्ताम् सहसा सहे सहेपि शाजान् सहसेशान् द्रवेणम् दधे सर्वान्द्रस्य दाहन्विषम् मागो निर्दध्यताम् ये न येषु पर्वादेशये सन्दये पशुभर्विदे अपानास्मि पिशाजानाम् व्याघ्रो गोमादामि वा स्वानः सिंहमेव दृष्टा देन विन्देऽन्यञ्जानम् न पिशाचे यङ्ग्रामे मा विशदा इदमुग्रम् सहो मम विशाचास्तस्मान्नश्यन्ति न ये मा क्रोधयन् निर्मिताः स्थिनम् मशका इव ता नहम् मन्ये मल्मोऽ मध्यम् गृध्य दिश उपाशान्नमुच्यते त्वयापूर्वमधर्वाणो जघ्नो रक्षाञ्जोष वया जघानकस्य अगस्त्याः वया वयमप्सरसा गन्धर्वांश्चादयामहे अज शञ्ज गन्धेन नाशय नदीलम् तत्सरसोपान्तारमावश्वासम् मुर्वलोक्लियानल्योप्सम् भुल य प्रमञ्जने तत्परेताक्षरसम्प्रदेबुद्धाभूतन यत्रा स्वर्थान्य क्रोधा महावृक्षाश्रेखण्डिताः तत्परेताक्षरसप्रदेबुद्धाभूतन यत्र वप्रेङ्खा हरेतार्जुना उदयत्रा घाटार्कर्तर्यः संवदन्ति तत्परेताप्सर सम्प्रति बुद्धा बोध येयमागन्मौषाधीनाम् वेरुधाम् वेर्यावते अजसञ्ज्ञाराटकेक्ष सञ्ज्ञे विरसतो आनत्यादर् श्रिखण्डिना गन्धर्वस्यापतेः निरत्ने मुष्टावकी याभिषेकाः हेमा इन्द्रस्य हेदयः शतमृष्टेन यश्मयेः काभिर्हविरताङ्गन्धर्वानावखादान् ग्रेषत हेमा इन्द्रस्य हृदयशतमृष्टेर्हिरन्यः काभिर्हविरताङ्गम् धर्वाणावखादान् अपघादानभि सौजानप्शुज्योदय मामकान् विशाचान् सर्वानौषधे प्रमृणेः सहस्रजाैकष्कपि दिवैकष्कुमारः सर्व केशकः प्रियो जायायित्वा सरसा अमराधावतामर्त्यामर्त्यान्मास <Sess> गम् उद्भ्यन्दतेम् सञ्जयन्तेमप्सराम् साधु देविनी लहे कृताने गृह्णामप्सरान्तामिहोवे विशिन्नते मा किरन्देमप्सराम् साधु देविनी लहे कृताने गृह्णामप्सरान् कामिहोवे या यै परणत्यज्ञात न कृतम् ग्रहात् सा न कृतानेशे से प्रहामात्मातुमाय सा न याक्षेश स्वत्ये तु मानादेषु निदन्धनम् या अक्षेषु प्रमोदम् तेषु सूर्यस्य रश्मेन दयाः सञ्चरन्ति मरे चेर्वाजानुसञ्चलन्ति याधामृषो दो रतो वाजिने वा सद्यः सर्वान् लोकान् पर्येजि रक्षन् स रायिधोमभिमञ्जोषानो ओक्षण सह अन्तरिक्षेण सहवाजिनेवन् गर्गेम् वत्सामिह रक्षवादिन् इमेते स्तोका बाहुलाय ह्यर्वा मनोस्तो अन्तरिक्षेण सह वाजिनेवन् गर्गेम् वत्सामिह रक्षवादिन् अयम् घासो अयम् पृथिव्यामग्नये समनमन् साध्नोत् यथा पृथिव्यामग्नये समनपन्ने वा मह्यम् सन्नमः सन्नमन्दो पृथिवे हेदुस्तस्या अग्निवत्सः स मेऽग्निना वत्सेने समूर्धम् कामन् दुहा वायुप्रथमम् प्रजाम् पोषम् प्रयम् स्वाहा अन्तरिक्षे वायवे समानमन्साध्नोर् यथान्तरिक्षे वायवे समनामन्ने वा मह्यम् सन्नमः वायुर्वत्सः सा मे वायुना वत्स मे समोऽर्जम् कामन्द्वहा आयुप्रथमम् प्रजाम् पोषम् स्वाहा दिव्यादित्याय समानमन्सा घ्नोद् यथा दिव्यादित्याय समनमहे वाक्यम् सन्नमः सन्नामन्तो चयोर्धे नुस्तस्यादित्यो वत्सः सामादित्येन वत्सेन समोऽर्धम् कामम् दुहा आयुः प्रथमम् दिक्षुचन्द्राय समानमन्सात्मोत् यथा दिक्षुचन्द्राय समन मह्ने वा मह्यम् सन्नमः सन्नमन्दो दिशोधेनभत्स्तासाहम् चन्द्रो वत्सः कामे चन्द्रेण वत्सेनेशमोर्जम् कामन्द्वाहा आयः प्रथमम् प्रजाम् पोषम् रयिम् स्वाहा नाम अज्ञावज्ञश्चारति प्रविष्टाम् पुत्रोऽभिदष्टिबाहो नमस्कारेण नमासातेजुहोमिमादेवानाम् कर्म भागम् हृदा पोतम् मया धा जातवेदो विश्वानि देववयुनानि विद्वान् सप्तास्यामि सभा जातवेदस्तेभ्यो जुहो विषजोषस्व हव्यम् ए नांद नांद े पुरस्ताद्युक्त्वादिजातवेद प्राच्यादिशोऽभिदासन्त्यस्मान् अग्निमृत्वादे पराञ्जो व्यसन्दाम् प्रत्यगेनाम् प्रतिसरेणे हे दक्षिणतो युक्त्वादिजातवेदो दक्षिणा यादुजोऽभिदासन्त्यस्मान् यमभृत्वादे पराञ्जो व्यसन्दाम् प्रत्यगेनाम् प्रतिसरेण हन्मे पश्चाद्युह्वादिजातवेद प्रतीच्यादिशोऽभिलासम् यस्मान् वरोणभृत्वा दे पराञ्चाम्यधन्दाम् प्रत्यगेनाम् प्रतिसरेण हन्मेत्तरातो जुह्वादिजातवेदमुदेत्यादिशोऽभिदासम् यस्मान् सोमा भृत्वा दे परान् चा व्यधन्दाम् प्रत्यगेनाम् प्रतिसरेण हन्मे स्ताद्युक्पादिजातवेदोऽद्ध्रुमायादिशाभिदासम् तस्मान् भोरे भृत्त्वा ते पराञ्जो व्यसन्ताम् प्रत्यगे नाण् ये एन्दरिक्षाद्युक्पादिजातवेदोऽ व्यध्वायादिशोऽभिदासम् तस्मान् वायुभृत्ता ते पराञ्जाव्यसन्ता हन्े य उपरिष्ठा जुक्पादजातवेद ऊर्ध्वा यादृशाभिदासम् यस्वान् सूर्यामृत्वा देव पराञ्जो्यथन्ताम् प्रत्यये नाम् प्रतिशरणहन्नि ये जिषामन्तर्देशेभ्यो दुग्पादिजातवेदः सर्वाद्भ्यो दिग्भ्याभिदासम् यस्वान् ब्रह्मत्वादे पराञ्जाव्यसन्ताम् प्रत्यगेनाम् प्रत्य नृतिसहरे राहन्मि ऊ